ama vajasya pidru khanam to be chanted during pidru related events in the padapatham of this mantra there are trikramam kaisas pragraham kaisas and there are four consecutive padams which are sarvanudattam therefore द घनम् इस् कन्स्ट्रक्टेड् वेरि केर्फुली वाक्यम् आमा वाजस्य प्रसव जगम्यादे मे द्यावा पृथिवी विश्वरूपे आ मा गन्धम्पितरा मादरा युव मा अमृतत्वाय गम्यात् घन आ मा वाजस्य वाजस्य माजस्य मा वाजस्य वाजस्य मा वाजस्य प्रसवः प्रसवो वाजस्य माजस्य प्रसवः वाजस्य प्रसवः प्रसवो वाजस्य वाजस्य प्रसवो जगम्या जगम्यात् प्रसवो वाजस्य वाजस्य प्रसवो जगम्याद प्रसवो जगम्या जगम्यात् प्रसव प्रसवो जगमाद इ जगमिया प्रसव प्रसव जगम्या प्रसव इधि प्रसव जगम्या देवे इमे आ जगम्या जगम्या द्यावा पृथिवी इमे इमे द्या वा पृथिवे इमे इमे द्या वा विश्वरूपे विश्वरूपे द्या इमे इमे द्या वा विश्वरूपे इमे इमे द्यावा पृथिवी विश्वरूपे विश्वरूपे द्यावा पृथिवी द्यावा पृथिवी विश्वरूपे द्यावा पृथिवी यदि द्यावा पृथिवी विश्वरूपे यदि विश्वरूपे मा गन्धं गन्धं मा गन्धं मा गन्धं गन्धं मामा गन्धं पिदरा पिदरा गन्धं मामा गन्धं पिदरा गन्धं पिदरा पिदरा गन्धं गन्धं पिदरा मादरा मादरा पिदरा गन्धं गन्धं पितरा मादरा पिदरा मादरा मादरा पिदरा पिदरा मादरा यौवयौवं मातरा पिदरा पिदरा मादरा युवम् मादरा यौ वै यौव मातर मादरा यु व मा यौ वतरा मातरा यौव मा मा यौ व मा यो वै यौव मामा सोम मा यो यौव मा सोमः a ah, ma a ah. ma somasomo mama somo amrdatvaya mradtvaya somo mama somo amrdatvaya सोमो अमृदत्त्वा या अमृ दत्त्वा यसो मोम अमृदत्त्वा यगम्याद्गम्या दम्र दत्त्वा यसोम सोम अमृदत्त्वा यगम्याद अमृदत्त्वा यगम्याद्गम्या दमृदत्त्वा या मृदत्त्वा यगम्याद त्वाय गम्यादि गम्याद ॐ